मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फोर्टि टु गणेशनाममाहात्म्यकथनं श्रीगणेशाय नमः कौण्डिन्य उवाच अहो गणेशमाहात्म्यमद्भुतं संश्रुतं मया भुष्युण्डिनो वदत्वत्तो देवर्षीणां वजोमिथः ब्रह्मोवाच ये कदा मुनयः सर्वे दे परस्परं समाययोर्विधातारं संशयस्यापनुत्तये प्रणम्य लोकधातारं जगुः सर्वे सुहर्षिताः मुनय कश्यपाद्या मां देवर्षय ऊचुः सर्वपूज्यो गणेशोऽयं सर्वादि पूज्य सः नामरूपधरो नित्यो ब्रह्मणस्पदिवाचकः वेदेषु कथितं ब्रह्मन् ब्रह्म ब्रह्मैव केवलं तत्र सा गुण्यनैर्गुण्यं विद्यतेन कदाचन देहधारी गणेशानो वेदेषु ब्रह्मणस्पतिः अधः संशयसंयुक्ता प्रष्टुम् त्वाम् समुपागताः त्वं साक्षाद्योगिवन्द्यश्च सर्वेषां प्रपितामहः चिन्तिः संशयकं नाधानुभवेन ददात्मना ब्रह्मोवाच तेषां वचनमाकर्ण्य ब्रह्म चिन्ता दुरो भवं अगमं केशवं पुरा तं प्रणम्य महाभागा परं विष्णुखेदसमायुक्तो लेभे नैव तैः सार्धं शङ्करं सोऽपि जगामज्ञानसिद्धये प्रणम्य गिरिजानाथं जगाधसंशयं परं तच्छ्रुत्वा शङ्करस्तत्र निश्चयं कर्तुमक्षमः शिवस्तान् प्रत्युवाचेदं वचनं सुखदायकं भुषुण्डिनं च स्वगुरुम् चित्ते स्मृत्वा गणेश्वरं श्रीशिव उवाच आदिमध्यावसानेषु भृशुण्डीमुनिपुङ्गवः तिष्ठति सर्वभावज्ञो गुरुर्नो हितकारकः गणेशनाममाहात्म्यं सम्पूर्णं कथयिष्यति जानादिनात्र सन्देहो नाम्ना सिद्धेश्वरो भवद तदस्तेन समायुक्ता जग्मुर्देवर्षयो मुने भृष्युण्डिनमहाभागममलाश्रम संस्थितं तं प्रणम्य महात्मानं स्थिता सर्वे सुरर्षयः स पूज्य जगादेदं वचनं हितकारकं भुष्युण्ड्युवाच धन्यं मे जन्मकर्मादियेन वो दर्शनं महद प्राप्तं वदद वाक्यं मां किमर्थमागताः पराः साक्षात् गणपदे सर्वे विभूदि पदधारकाः यूयं गणेशसामान्याः पावनार्थं समागताः भृशुण्डिवचनं श्रुत्वा जगाद शङ्करो वचः प्रणम्यतं महाभागं योगीन्द्राणां गुरोर्गुरुम् श्रीशङ्कर उवाच गणेशस्य महत्तत्त्वम् परिपूर्णम् महामदे त्वम् जानासि न सन्देहः साक्षाच्छुण्ठाधरो भवान् अध संशयसंयुक्ता वयं सर्वे समागताः तं तेऽहं शृणुवक्ष्यामिभ्रान्तिदायकमुत्तमं नामरूपधरो नित्यकथं विघ्नेश्वरो भवद ब्रह्मणस्पदि संज्ञस्तु वेदवादेषु योगिप तेषां वचनमाकर्ण्यताञ्जगाद महामुनिः भृषुण्डिसर्वसारज्ञो गणपत्याग्रणीर्महान् भृशुण्ड्युवाच ग कृसूर्य अहः प्रोक्तो नो विष्णोरः शिवस्मृतः तेषां स्वामी गणेशानस्तेनायं ब्रह्मणस्पतिः गणाः समूहवाच्याश्च बाह्यान्तरैकभावदः तेषां स्वामी गणेशानस्तेनायं ब्रह्मणस्पदिः गोबोध अविबोधस्थो न स्वानन्दो निवृत्तिकृद तेषां स्वामी गणेशानस्तेना यं ब्रह्मणस्पदिः विश्वनिगप्रसूतानि ब्रह्माणि न गदानि तु तेषां स्वामी गणेशानस्तेना यं ब्रह्मणस्पदिः एवं नानार्थसंयुक्तं नाम तस्य महात्मनः कति ब्रूयां न शक्यते चित्तरूपा महामाया पञ्चता परिकीर्तिता सा बुद्धिर्भ्रान्तिता तत्र सिद्धिर्माया परा स्मृता विश्वानि मोहयुक्तानि ब्रह्माणि ब्रह्मणस्पतिः मोह विनाशा योगदादराम जा गणेशो गणव अर्थ सत्ता सयुक्त नाम तस्दर्शय कथ नाश विनाशाद अथ प्रवक्ष्याम गणेश सुखप्रदम यशयी नम भजिष्यथ निरंतरम समिव्यिवाख्ये कुंभस्थले महात्म तयी तिनेू शुंडा तोरीयवाचका धर्माधर्मौ गणेशस्याधरौ बिन्दुर्गलाकृतिः देही दन्तस्सतैकस्तु बोधो जठरवाचकः साङ्ख्यं कर्णात्मकं तस्य हस्ताश्चत्वर्थवाचकाः माया मायिकरूप वै पादौ गणपदे स्मृतौ येषां संयोगरूपाख्यो देहस्तस्य सुरर्षयः स्वसंवेद्यात्मकः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः अभिमानेन शून्यत्वादेशमयोगवाचकः देहो देहधरस्यापि गणेशस्य विचक्षणाः संयोगयोगयोर्योगे देहधारी गजाननः बभूव योगदानार्थं जगद्भ्यो ब्रह्मभ्यपरः विश्वं कण्डादधस्तस्य शिरोब्रह्मगजात्मकं तयोर्योगे गणेशानो देहधारी बभूव च एवम् नानार्थभावेन ध्यायन्ते योगिनो मलाः देहम् गणपतेः दे प्राज्ञा मायामोहविवर्जिताः शब्दार्थसत्तया युक्तम् वपुस्तस्य विराजदि नाशा नाशानाशादिभावैश्च वर्जितं तन्मयं तथा एतत्सर्वं समाख्यातं नामरूपरहस्य कं गणेशस्य महाभाग यदा मुद्गलभाषितं गणेशेदिसहृज्जप्त्वा ब्रह्मभूतो भवेन्नरः द्विवारं चेद् गणेशानस्तस्यर्नी नात्र संशयः गणे शेदि सहृज्जत्वा यस्तिष्ठति नरोत्तमः जगद्ब्रह्मयुगस्तेन संस्मृतो गणनायकः अदो गणेशनाम्नश्च स्मरणं न करोति यः स दुरात्मा परित्याज्यश्चाण्डालानां शिरोमणिः गणेशनमनं कृत्वा नरस्तिष्ठदि भुवि तेन नानाविधं ना विश्वब्रह्म सन्नमिदं भवेद् गणेशरूपं सन्ध्याने धृतं येन महात्मना जगद्ब्रह्मयुधो योगोऽध्यातस्ते न संशयः गणेशमूर्तिरूपं तु दृष्टं येन सुरर्षयः नानाब्रह्म तथा विश्वं दृष्टं सोऽपि गजाननः आनंद महाभागा विश्वा ब्रह्मकाणि तो तदसुलभ पूजनम भाव योगमय सुलभम नामरूपधरो नाम्ढुर्बूव भक्रिलालसह। तस्य पूजादिभावेन पूजितं सर्वमञ्जसा जगद्ब्रह्मणसन्देहो विविधं शान्तिरूपकम् इदं सर्वं समाख्यादं रहस्यं गणपस्य च नाम रूपात्मकं पूर्णं सङ्क्षेपेण सुरर्षयः भजध्वं तं विशेषेण सर्वसंशयवर्जिताः तेनैव कृतकृत्याश्च भविष्यध सुरर्षयः यवमुक्त्वा महायोगी वीरराममहामुने भृश्युण्डी सर्वसारज्ञो गजानन इवाभरः ॐ तत्सदि श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गणेश नाम माहात्म्यकथनम् नाम द्विचत्वारिंशोऽध्यायः ओम्